सर्वेषाम् अस्मिन् पाणिनीयव्याकरणवर्गे स्वागतम् ॐ श्रीगुरुभ्यो नमः एनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः येन धौदागिरः पुंसां विमलैव वा। शब्दवारिभिः समश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः वाक्यकारं वररुजिं भाष्यकारम् पतञ्जलि पाणिनीम् सूत्रकारं च प्रणतोऽस्मि मुनित्रयम् श्रीगुरुभ्यो नमः संज्ञाप्रकरणम् इति पाठस्य अध्ययनं सम्पूर्णरीत्या कृतवन्तः अपि च तदनन्तरम् अभ्यासः अपि कृतवन्तः केवलं पुनरावर्तनम् कृत्वा वयम् अग्रे सरामः दने प्रथम अस्मिन् प्रकरणे सप्तसूत्राणि सन्ति इति उक्तम् तत्र प्रथमसूत्रः अस्ति उपदेशे अच् अनुनाज् सूत्रम् प्रथमाध्यायस्य तृतीयपादे पादस्य द्वितीयसूत्रमस्ति सम्पूर्णसूत्रमस्ति उपदेशे अच् अनुनासिक इत इति अनेन सूत्रेण कीदृशकार्यम् भवति इति उपदेशावस्थायां विद्यमानस्य प्रत्ययस्य आदेशस्य आगमस्य अथवा धातोः अचुवर्णः अनुनासिकवर्णः अस्ति चेत् अस्य अनुनासिक अचुवर्णस्य अनेन सूत्रेण इत्सज्ञा भवति इति कश्चन संज्ञा अनुबन्धः इति अस्य एव भिन्नसंज्ञा अत्र उदाहरणेन एताम् इति एका धातु दत्तमस्ति एथ् इति धातु एव अस्य एध् इत्यत्र आकारः अन्तिम एधा इति अस्ति तत्र अकारः अनुनासिकवर्णः अस्य अकारस्य अनेन सूत्रेण इत्संज्ञा भवति एथ् इति लौकिकरूपं वयं द्रष्टुं शक्नुमः यत्र यत्र अनुनासिकवर्णस्य इत्संज्ञा भवति तेषाम् सर्वेषाम् तस्य लोभः इति भिन्नसूत्रेण तस्य इतः लोभः इति सम्पूर्णसूत्रम् तादृश इत् वर्णस्य लोभः अपि भवति इति कृत्वा एद् इति एव लौकिकरूपम् वयं द्रष्टुं शक्यते द्वितीयसूत्रम् इदम् एकः एव सूत्रम् अचुवर्णस्य कृते वर्तते अतः यत्र यत्र अनुनासिकस्वराः इत्सज्ञा भवति तत्र सर्वत्र इदम् एकः एव सूत्रम् इति अपि मनसि भवेत् द्वितीयसूत्रमस्ति हलन्ध्यम् सूत्रं किमुच्यते उपदेशे अन्ध्यम् हलः हा इत् इत्युक्ते उपदेशावस्थायाम् विद्यमानस्य धातुषु प्रत्ययेषु अगमेषु आदेशेषु अन्तिमहल् वर्णः इत्युक्ते अच्वर्णः नास्ति हल, व्यञ्जनवर्णः एव अत्र उक्तम् तेषाम् इत्सञ्ज्ञा भवति इति एदा इत्संज्ञा भवति तस्य लोभः भिन्नसूत्रेण भवति अस्य उदाहरणमत्र दत्तमस्ति तृच् प्रत्ययः कृतुतः तृच् प्रत्ययः तरणे रूपसिद्धिं मा चिन्तयतु तृच् प्रत्ययः इत्यत्र चकारः अच् वर्णः नास्ति तु हल् एव व्यञ्जनवर्णः अकारः न तत्र नास्ति एव अकारः नास्ति च एव वर्तते इति कृत्वा हल् वर्णः अस्ति अन, अन् अन्ते अस्ति उपदेशावस्थायाम् अस्ति अतः तादृश उपदेशावस्थायां विद्यमानस्य आगमस्य वा आदेशस्य वा नास्ति प्रत्ययस्य हल् वर्णस्य हल् चकारः अस्ति अस्य इत्संज्ञा अनेन हलन्त्यम् इति सूत्रेण भवति तृच्छति प्रत्ययः कृत्प्रत्ययेषु अन्यतमः अनेन एव कर्तृ इति रूपम् सिद्ध्यते तृतीयसूत्रमस्ति न विभक्तौ तुस्माः अनेन सूत्रेण किम् उच्यते इति चेत् उपदेशे विभक्तौ अन्द्याः हलः तुस्माः न इदः अन्त्याः हलः न इदः पूर्वसूत्रे किम् उक्तमस्ति उपदेशे अन्त्या अन्ध्यम् हल् इति उक्तम् अत्र उपदेशे अन्द्याः हलः न इदः पूर्वसूत्रेण यद् उक्तम् तस्य बाधा अनेन सूत्रेण कृतः परन्तु सर्वेषां हल्वर्णानां बाधा वर्तते वा न केवलं विभक्तिसंज्ञकः तु स्माः सवर्गीयवर्णाः सकारः मकारः एतेषाम् युत्संज्ञा न भवति इति अस्य सूत्रस्य आशयः अतः तादृशवर्णसमुदायः यत्र आगच्छति तत्र तेषाम् इत्संज्ञा न भवति वयम् जानीमः तिप् तस् इति अस्ति दिव्यजनप्रत्ययः प्रथमा पुरुषा दिव्यजनप्रत्ययः अस्ति तस् इति लट्लकारस्य तिप्तच्छीरि अस्ति खलु तत्र तस् इति पठयोगः तस् इति वदामः चेत् पठतः इति एव रूपम् अत्र सकारः तिष्ठति न तस्य इत्संज्ञा न भवति अनन्तरं प्रक्रियायां सकारस्य विसर्गः आदेशः भवति अधः पटतः इति रूपं सिद्ध्यति अत्र न इतः तूष्माः न इतः अधः अनेन सूत्रेण अस्य सकारस्य इत्संज्ञा न जाता इदानीं चतुर्थसूत्रमस्ति चुठु इति सम्पूर्णसूत्रम् चुठु न इतः एव उपदेशे छुटु न इतः एव उपदेशे प्रत्ययस्य आदि चुठु इतौ इति अस्ति सम्पूर्णसूत्रम् उपदेशे प्रत्ययस्य आतौ छुटु न इदम् तस्मात् पूर्वम् आदिर्निडु तवः इति सूत्रं पश्यामः यतोहि झुठु इति सूत्रं प्रत्ययस्य विषये आगच्छति परन्तु इदानीं वयं धातुषु प्रत्ययेषु आगमेषु आदेशेषु ये सूत्राणि कार्यं करोति तस् तत् पश्यामः आदौ एते त्रयः इदानीं वयं दृष्टवन्तः उपदेशे अचनुनासिरे हलन्त्यम् अपि च न विभक्तौ तु स्माः इदानीं चतुर्थसूत्रमस्ति आदिर्न्यडु तवः एदे सर्वे धातुविषये अपि कार्यं करोति उपदेशस्य आदौ न्यायोगः इ अथवा टायोगः उ डायोगः उ एतेषु कश्चन वर्णसमुदायः अथवा इत्युक्ते ङी टु अथवा डु उपदेशस्य आदौ इस् फस्ट् लेटर् आफ् दि उपदेश मूलरूपं यत् वर्तते तत्र आदिमवर्णः न्यायोगः इ अथवा टायोगः ओ योगः उ एतेषु कश्चन वर्णः अस्ति चेत् तादृशवर्णसमुदायस्य ये वर्णसमुदायाः वर्तन्ते खलु तस्य इत्संज्ञा भवति इत्युक्ते ङि इत्यत्र ञि सम्पूर्णवर्णसमुदायस्य इत्संज्ञा भवति न तु इकारस्य उपदेशे अच्छनुनासिक इत् इत्यनेन इति न परन्तु केवलम् आदिर्निडुटवः इति सूत्रेण एतेष् एतेषाम् इत्युक्ते ङी टु टू, ये समुदायाः वर्तते तेषाम् संज्ञा भवति चुडुसूत्रेण सूत्रेण वा अथवा उपदेशे छनुनासिकसूत्रेण वा अत्र इत्संज्ञा न भवति सर्वदा स्मार्तव्यं वर्णसमुदायरूपेण यत्र धातोः आदौ आगच्छति तदानीं भिन्नसूत्रेण अस्य इत्संज्ञा न भवति अत्र अस्मिन् सूत्रे धातोः इति अपि वर्तते इति कृत्वा इदं सूत्रं धातुविषये कार्यं करोति प्रत्ययविषये अस्य तादृशप्रत्ययः नास्ति इति मम चिन्तनम् अतः केवलं धातुविषये एव अस्य सूत्रस्य कार्यं भवति देशस्य आदौ ञि टो द्वौ द्वि त्रिशु एकः वर्णसमुदायः अस्ति चेत् तस्य इत्संज्ञा भवति इति अस्य सूत्रस्य आशयः तदनन्तरम् एकं वार्तिकमस्ति इर् इत्संज्ञा वाच्या इति इदं वार्तिकं नेथि इति सूत्रे वर्तते सू अस्मिन् सूत्रे यदा पठिष्यामः तदानीम् अत्र इदं वार्तिकम् अपि उपलभ्यते अनेन वार्तिकेन यत्र छिदिर् बिदिर् इत्य तादृशस्थित्यां किमस्ति इर् इति अनुनासिकयुक्त इकारः अपि च रेफः मिलित्वा तिष्ठति अतः यत्र यत्र तत्र संयोगरूपः इर् इति आगच्छति तत्र इर इत्संज्ञावाख्या इत्यनेन एव इत्संज्ञा भवति नदु तु भिन्नरीत्या रेफस्य हलन्त्यम् इति सूत्रेण तदनन्तरम् इ उपदेशे अचिक इत्यनेन इदि न केवलं इर् इत् संज्ञा वाच्या इत्यनेन अस्य सम्पूर्णवर्णसमुदायस्य लोपः भवति इर् इति अत्र उदाहरणानि बहवः द्रष्टुं शक्यते युजिर् फिदिर् एतादृशानि एते सर्वे सूत्राणि प्रत्ययेषु धातुषु कार्यं करोति इद इतः परं षप्रत्ययः चुठु अपि च लशक्व तथ्यते एते त्रयः सूत्राणि केवलं प्रत्यस्य विषये एव कार्यं करोति प्रत्ययस्य विषये एव इति उक्तत्वात् आदेशे आगमः इति अपि तस्मिन् अन्तर्भूतमस्ति षप्रत्ययः इत्यनेन उपदेशे प्रत्ययस्य आदौ षकारः अस्ति चेत् अस्य षकारस्य इत्संज्ञा भवति एतदेव शाकन् इति कश्चन प्रत्ययः वयं स्वीकृत्य दृष्टवन्तः अस्य शकारस्य इत्संज्ञा अनेन सूत्रेण भवति चुठु इति अग्रिमसूत्रमस्ति अस् अनेन सूत्रेण उपदेशे प्रत्ययस्य आदि चकारः अथवा टवर्गीयः क्षम्यता टवर्गीयः चा, अथवा टवर्गीयवर्णाः यदा आगच्छति तदा अनेन सूत्रेण तस्य इत्संज्ञा भवति चुठु उपदेशे प्रत्ययस्य आदि चुठु इतौ इति अस्ति उदाहरणमस्ति रामयोग अत्र प्रत्यस्य आदव न तु अतः आदौ जकारः अस्ति अयं जकारः स्वर्गीयवर्णेषु अन्यतमः अस्ति इति कृत्वा अनेन सूत्रेण तस्य इत्संज्ञा भवति यदा इत्संज्ञा भवति तस्य लोपः इति सूत्रेण लोपः अपि जायते अतः किम् अवशिष्यते इति च इत्यत्र च ज जकारः उत्संज्ञा भूत्वा अवगच्छति परन्तु अकारः तिष्ठति अस् इति भवति रामा योगः अस् अत्र अकारस्य रामा इत्यत्र एकः आकारः अस्ति अक अस् इत्यत्र भिन्न आकारः अस्ति मिलित्वा सन्धिकार्यं भवति रामास् इति भवति सकारस्य विसर्गादेशः भवति रामाः इति रूपम् अत्र पूर्वपरयोगो परयोः एकः अकारः इति न अत्र वृद्धिसन्धि भवति अतः रामाः इति एव सूत्रद्धिते इति अग्रिमसूत्रम् अनेन सूत्रेण क्षमता अत्र रामयोग अस् अत्र आयोग आ दीर्घसवर्ज किल वृद्धिः इति यद् मया उक्तम् अहं तदेव चिन्तितं दीर्घसभा अनन्तरं सकारस्य विसर्गः भवति एवम् अकारस्य वृद्धिः आकारः इति एव मया चिन्तितम् आम् आम् भगिनी इतोपि एकः संशयः अस्ति अत्र यदि भवती संज्ञावाचि अस्ति किल तत्र इति अस्ति तद् किं तदेकवारं अस्मिन् सूत्रे वर्तते म्यूट् करोतु भगिनि इर् इत्संज्ञा वाच्या इति एकं वार्तिकं वार्तिकं कुत्र वर्तते कथं वा, वयं द्रष्टुं शक्यते इति अत्र नेटि इति सप्तमाध्यायस्य द्वितीयपादस्य चतुर्थं सूत्रं वर्तते अस्मिन् सूत्रे इदं वार्तिकम् अपि वर्तते अत्र उपलभ्यते इति मया उक्तम् यदि वयं द्र द्रष्टव्यम् इति चिन्तयामः तदानीं कुत्र द्रष्टव्यम् इति अत्र लोकेशन् दत्तमस्ति नेटि इति लशक्व अतद्धिते इति अस्ति इत्युक्ते इदं सूत्रम् तद्धितप्रत्ययेषु कार्यं करो इदि इदि इदि इदि न करोति इति अस्य आशयः अतद्धिते न तद्धिते इति अतद्धिते नैतत्पुरुषसमासः लशक्कु इति अस्ति लशक्कु इति वदामः चेत् कवर्गीयवर्णाः एव कु इत्यनेन विव विवक्षितं लकारः ला सकारः श इति तदेव लश्च कुश्च इति इदे इदे समासः अत्र उक्तम् तत्र न तद्धितम् अतद्धितम् इति नैतत्पुरुषः तादृश अथ तस्मिन् अथथिते रशक् इदं सूत्रं कुत्र कार्यं करोति इति चेत् इदं सूत्रमपि प्रत्ययस्य विषये एव कार्यं करोति प्रत्ययस्य विषये इत्युक्तत्वात् आगमस्य आदेशस्यापि कार्यं करोति उपदेशावस्थायां प्रत्ययस्य आदि लकारः चकारः अथवा कवर्गीयवर्णेषु अन्यतमः वर्तते चेत् तेषाम् इत्संज्ञा भवति तद्धितभिन्नप्रत्ययेषु एतादृशकार्यम् भवति तस्मिन् तद्धितप्रत्यये इदम् सूत्रम् न कार्यम् करोति तदेव तस्मिन् अधस्थिते प्रत्ययेषु तद्धितभिन्नप्रत्ययेषु एव अस्य सूत्रस्य प्रसक्तिः तद्विधप्रत्यये अस्य सूत्रस्य प्रसक्तिः नास्ति अनेन एव अत्र रामयोगः षस् इति अस्ति षस् इति द्वितीयाविभक्ति बहुवचनप्रत्ययः अस्ति औ जट् अम् औट् षस् इति अस्ति षस् इति द्वितीयाविभक्ति बहुवचनप्रत्ययः सस् इत्यत्र लशक्वद्धिते इति सूत्रेण सस् इति प्रत्ययस्य आदौ विद्यमानस्य सकारस्य इत्संज्ञा भवति तदनन्तरं तस्य लोभः इत्यनेन लोभः अपि भवति अस् इति अवशिष्यते अस् इति अवशिष्यते अधः रामा योगः अस् इति स्थितिः अकारस्य अनन्तरम् अकारः अस्ति उभयोः दीर्घः भवति रामान् रामास् इति भवति रामास् इत्यत्र कथं रामान् इति भवति इति इदानीं नुमागमः भवति तत् कथम् इति अनन्तरं वयं पठिष्यामः यतो हि अत्र पश्यामः चेत् रामास् इति एव रूपस्थितिः गच्छामः चेत् पूर्ववत् एव भवितुमर्हति परन्तु तद् नास्ति अत्र न्युमाङ्गमः भवति तदनन्तरम् इत् लोभविधिः इति एकं सूत्रं तेन किं कार्यं भवति इति चेत् अहं पूर्वमेव उक्तवती तस्य इतः लोभः यत्र इदानीं सप्तसूत्राणि वर्तते अपि च एकं तेषां कार्यं किम् इति चेत् इत लोभविधिः यत्र एत्र हित् लोभ भवति इति वक्तव्यम् इदानीं तत्सर्वम् उक्त्वा यत्र यत्र यत् लोभः भवति तेषां सर्वेषां तस्य इतः लोभः इति सूत्रेण लोभः भवति इतोपि अग्रे किम् अस्ति इति चेत् सर्वम् इति अत्र दत्तमस्ति एतद् वयं दृष्टवन्तः दृश्यर् इत्यत्र इरः इत्संज्ञा वाच्या इत्यनेन इर् इति सम्पूर्णवर्णसमुदायस्य इत्संज्ञा भवति तस्य इरः लोपः इत्यनेन लोपः भवति दृश् इति एव अवशिष्यते इदानीं पर्यन्तम् कस्यापि सन्देहः अस्ति चेत् पृच्छतु भगिनि अत्र लशकु इति पदमस्ति तस्य बहुवचनम् अस् अस्ति लशक्व इति वा दशकु इति अस्ति खलु एकवचने लषक्व वा न दशकु योगः अतथ्यते उकारस्य अकारः आगच्छति चेत् सन्धिकार्यं कथं भवति अस्तु अस्तु अस्तु भगिनि एणुसन्धि भवति वा आमाम् एव आमाम् एव मया अग्रे पर्य पठितुं शक्यते खलु इदानीम् अस्य कस्यापि सन्देहः अस्ति चेत् पृच्छतु नास्ति चेत् इन्दुभगिनी भगिनी पठतु अनुबन्धवर्णाः किमर्थं ततः पठतु नमस्कारः भगिनी नमस्कारः अन्ये सर्वे मध्ये एव भवतु अनुबन्धेः विभिन्नकार्याणि सिद्ध्यन्ति यत्र प्रत्ययाः समानाः दृश्यन्ते अनुबन्धेः ते विद्यन्ते विद्यन्ते यथा द्वादिगणे शुदादिगणे श उभयत्र आ इत्येव अवशिष्यते अनुबन्धनिष्कासनानन्तरम् अवशिष्यते अनुबन्धवर्णैः एव बहुत्र. प्रत्ययेद ज्ञाए थ्रुबंध इन्न संज्ञा विभिन्न अतयोग उपयोग अस् प्रत्यन सबंध किंतु अब भिन्ना त््वादिगणे शुद्धागणे श्र उयत्र भ्वादिगणे अगणे अ आबंध निष्कासना आव अवशिष्य तत्र प्रत्ययभेदः अस्ति इति वयं ज्ञातुं शक्नुमः तथैव तत्र दत्तमस्ति धन्य एवं भगिनि एवं धन्यवादः भगिनि अत्र पश्यतु अनुबन्धैः विभिन्नकार्याणि सिद्ध्यन्ति इति उक्तमस्ति अनुबन्धैः इति विभक्तिवचनं किं भगिनि तृतीयबहोजनम् इत्युक्ते अनुबन्धेन विभुक्त विफिन्नकार्याणि सिद्ध्यन्ति इति खलु तद् निमित्तिकं विभिन्नकार्याणि वर्तन्ते इति अस्य आशयः अधः अनुबन्धवर्णाः किमर्थम् इति चेत् तेन भिन्नकार्याणि भवति mm. mm? mm. यत्र mm. प्रत्यायाः समानाः दृश्यन्ते अनुबन्धैः ते भिद्यते इत्युक्ते mm. यत्र प्रत्ययस्य लौकिकरूपम् अनुबन्धलोपानन्तरम् यद् रूपं वर्तते तत्र mm. समानता बहुत्र दृश्यते mm. उदाहरणं वदामः चेत् इदानीम् अत्र उक्तमस्ति भुवादिगणे विवरणप्रत्ययः शप् अस्तिगणे शप् तुदादिगणे किम् अस्ति श अस्ति उभयत्र अनुबन्धलोभानन्तरं किम् अस्ति अवशिष्यते आ अवशिष्यते इदानीं अनुबन्धनिष्कासनानन्तरम् उभयत्र यदि अकारः एव वर्तते mm. ततः प्रत्ययः प्रत्ययभेदः वयं ज्ञातुं शक्यते वा इति चेत् mm. न अनुबन्ध अनुबन्धयुक्तरूपं न दृश्यते mm. तदा वयम् अत्र तयोः मध्ये कः भेदः यदि सर्वे श्रोतुं शक्नो शक्नोति यदि यदि इदानीम् इदानीं इदानीं श्रूयते वा पश्यतु यदि वयं निरनुबन्धरूपम् अनुबन्धं मम ध्वनिः श्रूयते वा भवत्याः ध्वनिः मम ध्वनि सर्वेषां कृते श्रू श्रूयते वा श्रूयते श्रूयते महोदय प्रसुना भगिनी भगिनी बहिः गत्वा पुनः आगच्छतु भगिनी शृणोतु यदि वयं निरनुबन्धरूपम् एव पश्यते पश्यति तर्हि वयं प्रत्ययोः मध्ये कः कः भेदः इति ज्ञातुं शक्यते न यतोहि पश्यतु इदानीं लौकिकरूपमस्ति कृषति अथवा भवति उभयत्र धातोः अपि च तिङ् प्रत्ययोः मध्ये अकारः एव श्रूयते उभयत्र अकारः एव श्रूयते चेत् उभयत्र विकरणप्रत्ययस्य रूपम् अकारः एव तद् दृष्ट्वा धातुः कस्मिन् गणे इति वयं ज्ञातुं शक्यते यत्र अनुबन्ध अनुबन्धसहितरूपं पश्यामः चेत् तत्र एव भुवादिगणे शप् इति अस्ति तुदादिगणे श इति अस्ति अतः अनुबन्धसहितरूपं यदा पश्यामः तदानीं वयं जानीमः ओ इदं तुदादिगणीयधातुः अस्ति अधः एव अत्र कृषति इति एव रूपं गुणकार्यं न जातं परन्तु भवति इत्यत्र गुणकार्यं दृश्यते भू एव धातुः परन्तु भवति इति जातम् अतः अत्र गुणकार्यं जातम् इति कृत्वा इदं भुआदिगणीयधातुः तु इद अस्ति तत्तु तुदादिगणीयधातुः अस्ति इति अपि वयं ज्ञातुं शक्यते इत् एतत् एकं कार्यमस्ति किम् अनुबन्धस्य यदा अनुबन्धः अनुबन्धः किमर्थम् अत्र निवेशितम् यतोहि अकारः एव लौकिकरूपम् अकारेण सह योजितमस्ति अनुबन्धः अधः एव पश्चात् बन्धितं पश्चात् योजितमस्ति अनुबन्धः यदि रूपं पश्यामः चेत् अकारः एव वर्तते तत्र योजितमस्ति शकारः अपि च पकारः यत्र तादृश शकारः पकारः वर्तते तत्र सर्वत्र षप् शक... शक्... इति वदामः केवलं षकारः एव अस्ति ष एव आगच्छति षकारः नकारः आगच्छति चेत् चेत् अत्र कुत्र कुत्र प्रत्येन सहितं भिन्नभिन्नवर्णाः युज्यते ते सर्वे अनुबन्धाः परन्तु ते सर्वे प्रक्रियाकाले प्रथमसोपाने एव सर्वम् अपगच्छति अपि ते न तिष्ठति अतः तेषाम् एकः प्रयोजः प्रयोजनमस्ति भिन्नभिन्नप्रत्ययः किं किम् इति वयं ज्ञातुं शक्यते प्रत्ययस्य भेदः ज्ञापनार्थम् भवति वा किं किं धननिर्देशार्थं वा तदेव भेदसाधना अग्रे आयाच्छति द्वितीये लिङ्गु पठिष्य इदानीं प्रथमम् किम् उक्तमस्ति प्रत्ययस्य भेदः अनेन वयं ज्ञातुं शक्यते शप् इति भिन्नप्रत्ययः शा इति भिन्नप्रत्ययः इति वयं ज्ञातुं शक्यते खलु तदस्य एकं कार्यम् इदानीं कस्य न भगिनी सम्यक् अस्ति वा ध्वनिः आम् भगिनी श्रूयते वा श्रूयते कस्य गृहे सीना भगिनी म्यूट् करोतु भगिनि सीना भगिनी भवद्भ्यः कृते ध्वनिः आसीत् इति अहं म्यूट् कृतवती चिन्ता मास्तु चिन्ता इदानीं प्रस्तूना भगिनी भगिनी पठतु आं भगिनी तृतीयपदच्छेदं वा प्रश्न उदेति तद् वा पूर्वं प्रत्ययस्य आमा, आमा, अन्यरीत्या आमां प्रत्ययस्य अन्यरीत्या नामकरणं भवति तस्य स्वभावं अनुसृत्य अनुबन्धा अनुबन्धानुगुणं भवति नकारः अनुबन्धः चेत् यथा णिच् तर्हि संक्षेपे प्रत्यना नाम नकारह नित। ना यस्य नित् नकार इत यही सकार का अनुबन्ध चेत तथा यथा खता तवतु क्षमता यहावत ताक्षेपे प्रत्यना नाम किकार का इत यदि प्रश्नम् उदेति अनुबन्धाः किमर्थम् युज्यन्ते पाणिनिना यदि तेषाम् लोपः भवति एव अनुबन्धाः अपगच्छन्ति परन्तु तैः सङ्केतः दीयते कार्यार्थम् यथा शप् इति विकरणप्रत्ययः तस्य शकारस्य इत्सञ्ज्ञा पकारस्य च इत्सञ्ज्ञा अनुबन्धलोपानन्तरम् आ इत्येव अवशिष्यते शकारपकार इक्ज्ञा धा स्वरपरवर्तनम भू योग शो गति अनुंधलोपे भू योग आग ती ष प्रत्यय कारणेन ऊ कार ओकार गुण भो योग आ योगति सधि भ योग भव योग ति भवति इति लटिरूपमस्ति तर्हि क्रियापदविषये मूलधातुः कः अपि च अनुबन्धानाम् निष्कासनानन्तरम् किम् अवशिष्यते इति प्रथमम् अवग अवगन्तव्यम् परम् तस्मात् धातोः विहितः यः प्रत्ययः अस्ति तस्मिन् अपि अनुबन्धाः के किञ्च अवशिष्यते तदा एव अग्रे धातुप्रत्ययोः मेलनेन क्रियापदम् निर्मातुम् शक्नुयाम सुबन्धपदविषये नामपदविषये अपि तथा प्रथमम् कार्यमस्ति प्रकृतिप्रत्ययोः अनुबन्धलोपः तदा एव पदनिर् पदनिर् निर्माणम् अग्रे पठामि किम् श्रूयते वा आं आम भगिनि आम् वदतु अत्र अनुब अनुबन्धानुगुणं कथं भवति इति उक्तम् नकार अनुबन्ध चेत् प्रत्ययः तर्हि प्रत्ययस्य नाम नित् इति भवति इति उक्तम् ककार अनुबन्ध अस्ति चेत् अत्र क वा कवतु वा क्त्वा कित कित् इति नामकरणं दत्तम् अनुबन्धाः किमर्थम् इत्युक्ते ते ते यदा ते प्रथमं तु ते अपगच्छन्ति एव किन्तु तत्र ते का कार्यं कुर्वन्ति अपगञ्च अपगच्छन्ति तर्हि कार्यं कुर्वन्ति एव यथा शप् इति विकरणप्रत्ययः अस्ति अत्र षकारस्य इत्संज्ञा भवति पकारस्य अपि इत्संज्ञा भवति अनुबन्धलोपानन्तरम् अत्र अ एव तिष्ठति षकारपकारयोः इत्संज्ञा इति भवति अनन्तरं स्वरपरिवर्तनम् एवं भवति शु भू योग आयोगति एव अवश्य अवशिष्यते आवसे, अत्र अ एव अतः तद् अकार ओकार भवति गुण भवति तु भूयोग अयोगति भो योग आयोगति इति भवति तदनन्तरं सन्धि कृत्वा भाव भावभावयोगति भवति इति लटीरूपं भवति शुद्धं वा भगिनि शुद्धं धन्यवादः भगिनी इदानीं करोतु आम् धन्यवादः प्रथमबिन्दु अस्ति अनुबन्धन किं वयं जानीमः चेत् प्रत्ययस्य प्रभेदाः प्रत्यभेदः कः कथम् इति यतो हि अत्रैव उक्तमस्ति तुदादिगणे भुवादिगणे आ इति एव प्रत्ययस्य निरनुबन्धरूपं तत् दृष्ट्वा वयं प्रत्ययभेदः न ज्ञातुं शक्यते परन्तु यत्र शप् अथवा श इति दृश्यते तदानीं वयं जानीमः एतत् भुवादिगणीयविकरणप्रत्ययः अस्ति तत्तु तुदादिगणीयविकरणप्रत्ययः अस्ति इति इदानीं द्वितीयबिन्दुः अस्ति प्रत्य अन्यरीत्या नामकरणम् भवति इति इत्युक्ते नामकरण इत्युक्ते संज्ञा इत इत्संज्ञा यत्र अनुबन्धवर्णाः वर्तते तेषाम् इत्संज्ञा भवति इति उक्तम् तादृश इत्सञ्ज्ञा स्वीकृत्य अत्र प्रत्ययस्य नामकरणं दी दत्तः अस्ति इतः यत् कथं नामकरणम् इति इति चेत् अनुबन्धवर्णा स्वीकृत्य तादृशवर्णसमुदा तादृशवर्णः यत्र प्रत्ययस्य प्रत्यये भवति सः कुत्र ध्वनिः भगिनी म्यूट् करोतु अस्मिन् प्रत्यये म्यूट् करोतु कुत्र ध्वनिः अस्ति प्रत्येः प्रत्यये कस्य वर्णस्य इत्संज्ञा भवति तद्वर्णं स्वीकृत्य तेन सह इत इत् इति योजि योजयित्वा तदनन्तरं संक्षेपेण अत्र नामकरणं दीय दत्तः अस्ति इत्युक्ते नामकरणं कथं कृतम् इति चेत् अत्र पश्यतु प्रत्यये प्रत्यये यदि इकारः इत् संज्ञा अस्ति चेत् इदित् इति इत इत इत वदामः इक् प्रत्याहारस्य अनन्तरम् उक् उक् उकारः ऋकारः चेत् उक् इति वदामः उकारः उकारः इत् संज्ञा अस्ति चेत् उगित् इति वदामः इत्युक्ते उक् योगः इत् उगित् अत्र किम् उक्तमस्ति नकारः इत् अस्ति चेत् नित् ककारः योगः इत् कित् गकारः योगः इत् गित् तादृशम् अत्र नामकरणम् इति उक्तम् तस्य स्वभावम् अनुसृत्य अनुबन्ध अनुगुणम् भवति नकारः अनुबन्धः चेत् तदा णिच् प्रत्ययः तर्हि सङ्क्षेपे प्रत्ययस्य नाम नित् इति नकारः इत् यस्य सः नित् प्रत्ययः बहुरिः समासः ककारः अनुबन्धः चेत् ता तवतु त्वा यत् अत्र सर्वत्र ता इत्यत्र तकारः एव अवशिष्यते ककारस्य इत्संज्ञा भवति दशकु अतद्धिते इति सूत्रेण एते सर्वे प्रत्ययाः अधः तद्धित भिन्नप्रत्ययाः च इति कृत्वा दशकुतद्धिते इति सूत्रेण ककारस्य इत्संज्ञा भवति दश ता एव अवशिष्यते ता कृत् प्रत्ययेषु अन्यतमः तवतु त्वा एते सर्वे कित् प्रत्ययाः एकं प्रत्ययस्य भेदः ज्ञातुम् शक्यते द्वितीयमस्ति तेषाम् इत्संज्ञा स्वीकृत्य तेषाम् नामकरणम् इत्युक्ते संज्ञा आधारीकृत्य कथम् तेषाम् भेदः कृतः इत् कित् अस्ति वा णित् वा नित् वा एतत् अपि मुख्यबिन्दुः अस्ति स्मरणे भवेत् प्रत्ययः कित् अस्ति चेत् यत् एकविधकार्यं भवति प्रत्ययः णित् अस्ति चेत् अत्र भिन्नकार्यं भवति एतत् प्रत्ययेषु भिन्नकार्यं भवति अतः तादृशकार्यम् यत्र आगच्छति तत्र सर्वत्र प्रत्ययेषु कस्य वर्णस्य संज्ञा इति वयं जानीमः चेदेव सूत्रस्य अर्थः ज्ञातुम् शक्यते प्रश्नः उदेति अनुबन्धाः किमर्थम् युज्यन्ते पाणिनिना यदि तेषाम् लोभः भवति एव प्रश्नः कः इति चेत् यद्यपि प्रक्रियायाः प्रथमसोपाने तेषाम् युत्संज्ञा एव प्रथमकार्यम् युत्संज्ञा भवति तेषाम् लोभः भवति इति यदि तादृशकार्यम् भवति चेत् किमर्थम तेषाम् अत्र योजनं योजनम् कृतवान् पाणिनिमहर्षिणा किमर्थम् तद् युक्तः वर्तते यदि तेषाम् लोपः प्रथममेव क्रियते खलु अतः अनुबन्धाः किमर्थम् इति प्रश्नः अनुबन्धाः अवगच्छति परन्तु तैः सङ्केतः कार्यार्थम् यद्यपि तेभ्यः गच्छति अपगच्छति तथापि प्रत्ययस्य स्वरूपं मूलरूपं किम् अस्ति तद् युक्तः एव वर्तते खलु शप् इत्यत्र यद्यपि शकारः पकारः अपगच्छति अकारः एव तिष्ठति तदापि प्रत्ययः षप् एव निरनुबन्धरूपम् एव अकारः अनुबन्धसहितरूपम् एव प्रत्ययस्य मूलस्वरूपम् अतः तादृशप्रत्यस्य मूलस्वरूपम् यद् वर्तते तदेव सङ्केदः का दीयते कार्यार्थम् इति उक्तम् यत्र मूलस्वरूपे यानि वर्णानि तिष्ठति तेषाम् प्रभावः अत्र वर्तते एव यद्यपि शकारः इत्संज्ञा छित् इति पकारः इत्संज्ञा पित् इति वदामः अत्र कार्यार्थं तिष्ठति यदा शक् विकरणप्रत्ययः तस्य शकारस्य युत्संज्ञा भवति पकारस्य च युत्संज्ञा अनुबन्धलोपानन्तरम् आ इत्येव अवशिष्यते षकारपकारयोः युत्संज्ञा इत्यनेन धातोः स्वरपरिवर्तनं भवति धातोः स्वरपरिवर्तनम् भवति इत्युक्ते भूयोगः आ इति अस्ति शकारः पकारः इत्संज्ञा भवति इति कारणात् भू इति धातोः अन्तिमस्वरवर्णः उका, उकार उकारः अस्ति अस्य परिवर्तनं भवति इति अत्र उक्तमस्ति परिवर्तनं भूत्वा किं भवति षप् इति वितरणप्रत्ययस्य प्रभावेण भू इति धा मूलधातोः उकारस्य परिवर्तनं गुणकार्यं भूत्वा ओकारः जायते अतः भू इत्यत्र भो इति उकारस्य ओकारः गुणवर्णः भो इति भवति तदनन्तरं विकरणप्रत्ययः अस्ति इति कारणात् सन्धिकार्यं भवति ओकारस्य यान्दवान्दादेशसन्धिकार्यं भवति औ इति भवति भव् योगः आयोगः ति रूपम् इदानीं पर्यन्तं कस्यापि सन्देहः अस्ति चेत् कृपया पृच्छतु ललिता भगिनि भगिनी अग्रिमं पठतु तर्हि क्रियापदविषये तर्हि क्रियापदविषये मूलधातुः कः अपि च अनुबन्धानां निष्कासानन्तरं किम् अवशिष्यते इति प्रथमम् अवगन्तव्यम् अवगन्तव्यम् परं तस्मात् धातोः विहितः यः प्रत्ययः अस्ति तस्मिन् अपि अनुबन्धाः के किम् च अवशिष्यते तदा एव अग्रे धातु प्रत्ययोः मेलनेन क्रियापदं निर्मातुं शक्नुयाम सुबन्त सुबन्तपदविषये नामपदविषये कंसे अपि तथा प्रथमं कार्यम् अस्ति प्रकृतिप्रत्ययोः अनुबन्धलोपः तदा एव पदनिर्माणम् अग्रे कथमेव तद् वदतु भगिनि वृत्तान्ते डुपचष् पाके इति मूलस्वरूपं पचति इति क्रियापदम् तत्र सामान्य सामान्यतया धातुः पच् इति वदामः परन्तु मूलतया दुपचश इति उपदेशे स्वरूपं वर्तते तत्र केचन अनुबन्धाः सन्ति आरम्भे तु अन्ते शकारः अपि चकारोत्तरवर्ति इत्यस्य प्रयत्तिकं वर्तिं मृत् धातोः त्रयाणं अपि अनुबन्धानाम् इत्संज्ञा भवति परं लोपः भवति पच् इत्येव अवशिष्यते ततः परम् अस्माभिः प्रत्ययः कः इति चिन्तनीयम् यथा तव्यत् तस्य तकारस्य इत्संज्ञा लोपः च तव्य इति अवशिष्यते तर्हि पच् योगा तव्य इति स्थितिः एतादृशां स्थित्याम् इदानीं कार्यस्य आरम्भः भवति येन पक्तव्यम् इति रूपं निष्पद्यत निष्पद्येत एवमपि एवमपि ध्येयम् केचन धातवः प्रत्ययाः चापि तादृशाः सन्ति ये येषु अनुबन्धाः न भवन्ति यथा उ धातु उ तत्र कोऽपि अनुबन्धः नास्ति प्रत्ययेषु यथा अ इति प्रत्ययः तत्र अनुबन्धः नास्ति अन्यानि उदाहरणानि प्रत्ययस्य ञ च ण च ङ च अनुबन्धः चेत् धातोः अन्तिमस्वरस्य वृद्धिः प्रत्ययस्य क च च अनुबन्धः चेत् धातोः कस्यापि स्वरस्य गुणः सिद्धिः च न भवति णि इत्येतान् अनुबन्धान् विहाय प्रत्ययस्य अन्यः कोऽपि अनुबन्धः चेत् धातोः अन्तिमा स्वरस्य गुणः एतादृशानि महत्त्वपूर्णा कार्याणि अनुबन्धैः सिद्ध्यन्ति <coughs> धन्यवादः भगिनी किञ्चित् म्यू करोतु <coughs> तर्हि क्रिया क्रियापदविषये मूलधातुः कः अपि च अनुबन्धानां निष्कासानन्तरम् अवशिष्यते इति प्रथ किम् अवशिष्यते इति प्रथमम् अवगन्तव्यं क्रियापदविषये मूलधातुः कः इत्युक्ते यत्र क्रियापदं निर्मातुं वयम् उद्युक्तः तस्मिन् समये सोपानानि कथम् इति चेत् आदौ क्रियापदविषये मूलधातुः कथं कथ कः इति ज्ञातव्यं भू इति मूलधातुः इति चिन्तयतु तत्र अयं धातुः भुवादिगणीयधातुः अस्ति अस्मिन् भूधातौ कोऽपि अनुबन्धवर्णाः नास्ति इति कृत्वा अनुबन्धवर्णानां निष्कासनम् इति कार्यम् अत्र नास्ति यदि डुपचष् पाके इति अस्ति खलु अयम् धातुः अस्ति चेत् डु इति आदौ वर्णसमुदायः वर्तते तस्य आदर्ण्यडु इत्यनेन इत्संज्ञा भूत्वा तस्य लोभः इत्यनेन लोभः भवति इत्यत्र षकारः षप्रत्ययस्य इत्यनेन उत्संज्ञा भवति वा न भवति यतोहि डुपचष् इति धातुः अस्ति इति कृत्वा इत्यनेन अस्य क्षम्यताम् षप्रत्ययस्य आदौ अस् अस्ति चेदेव कार्यं करोति शाय इति अन्तिमशकारः अस्ति हरन्त्यम् इत्यनेन तस्य इत्संज्ञा भवति तदनन्तरं पछ इत्यत्र अनुनासिक अकारः अस्ति अस्य अनुनासिक अनु उपदेशे अछ् अनुनासिक इत् इति सूत्रेण इत्संज्ञा तस्य लोपः इत्यनेन लोपः भवति अतः पच् इति एव अत्र निरुपन निरनुबन्धरूपं प्रकृते भुवादिगणीय भू इति धातुः भुवादिगणे अस्ति इति कारणात् अत्र शप् एव विकरणप्रत्ययः प्रत्ययस्य अनुबन्धलोपा लोपकार्यम् अस्ति द्वितीयकार्यम् प्रथमकार्यम् धातोः यदि अनुबन्धवर्णाः अस्ति चेत् तस्य अनुबन्धवर्णानाम् निष्कासनम् करणीयम् द्वितीयसो अस्ति प्रत्ययस्य वर्तते चेत् तत्सर्वम् निष्कासनम् करणीयम् तदनन्तरम् तदा एव अग्रे धातु प्रत्ययोः मेलनेन क्रियापदं निर्माणं शक्नुयामः तदेव Sopane पूर्वस्मिन् सोपाने कृतं भूयोगः शप् इत्यत्र भू तिष्ठति a इत्यत्र अनुबन्धलोपानन्तरम् अकारः सुबन्तपदविषये नामपदविषये सुबन्धपदविषये इत्युक्ते नामपदविषये अपि तथा प्रथमं कार्यमस्ति प्रकृति प्रत्ययोः अनुबन्धलोभः प्रकृतिः इत्युक्ते सुबन्तपदम् अपि चेदुब तिङन्तपदम् उभय अपि इत्युक्ते प्रातिपदिकं वा धातुः वा उभयमपि प्रकृतिः एव तदनन्तरम् यानि प्रत्यायानि अनन्तरम् आगच्छति तेषाम् अन् अनुबन्धलोभः इति द्वितीयकार्यम् तदा एव पदनिर्माणं भवितुम् अर्हन्ति वृत्तान्ते डुभजष्पागे इति मूलस्वरूपं पचति इति क्रियापदम् पचति इति प्रथमपुरुष एकवचनलटीरूपमस्ति तत्र सामान्य सामान्यतया धातुः पच् इति वदामः परन्तु मूलतया डुबच् इति उपदेशस्वरूपं डुबच् इति एव मूलस्वरूपं तत्र दू इति आद् आदिर्नितुटवः इत्यनेन संज्ञा भवति अन्दिम तदा पचश पच इश् इति अस्ति तत्र षकारस्य हलन्त्यं सूत्रेण इत्संज्ञा भवति अनुनासिक अकारस्य उपदेशेया च अनुनासिक इत् इत्यनेन निःस नित्संज्ञा भवति अनुबन्धलोपानन्तरं किं भवति पच् इति एव <Summ> ततः परम् अस्माभिः प्रत्ययः कः इति चिन्तनीयम् तथा इदानीं पूर्व शप् इति विकरणप्रत्ययः आसीत् इदानीम् एकं कृत् दत्तमस्ति तव्यत् इति तेन भवति तकारस्य इत्संज्ञा भवति तद्व्यत् इति प्रत्ययस्य अन्तिमतकारः यद् वर्तते तस्य हलन्त्यम् इत्यनेन यत्संज्ञा भवति तव्या इति अवशिष्यते तर्हि पज् योगः अधः अत्र चकारस्य अनन्तरं कका तकारः अस्ति इति अत्र कुत्वं भवति पक् ककारः आदेशः भवति चकारस्य स्थाने पक्तव्यम् इति रूपं सिद्ध्यति तदनन्तरं धनिपर्यन्तं कस्यापि सन्देहः अस्ति चेत् पृच्छतु एवमपि ध्येयं केचन धातवः प्रत्ययाः चापि तादृशाः सन्ति तेषु अनुबन्धाः न भवन्ति यदा भू धातुः अर्थमस्ति प्रथमधातुः अस्ति धातुपाडे भू इति तस्य अर्थः अस्ति भूसत्तायां यत्र तत्र कोपि अनुबन्धः नास्ति प्रत्ययेषु यथा आ इति प्रत्ययः प्रत्य यत्र धातुः अत्र उदाहरणद्वयं दत्तमस्ति एकं धू इति धातुः द्वितीयम् आ इति प्रत्ययः अत्र प्रत्ययस्य सानुबन्धरूपम् अपि च निरनुबन्धरूपम् उभयमपि समानमेव अत्र कोऽपि अनुबन्धः नास्ति इति कारणात् अत्र सानुबन्धरूपम् अपि च समानमेव हु इति एव वर्तते प्रक्रियाकाले अपि तदा आ इति प्रत्ययस्य अपि अ एव दृश्यते अन्यानि उदाहरणानि प्रत्ययस्य नकारः अथवा ञकारः अनुबन्धः चेत् धातोः अन्तिमस्वरस्य वृद्धिः इत्युक्ते णित् णित् प्रत्ययेषु परेषु प्रत्ययः परे अस्ति चेत् धातोः अन्तिमस्वरस्य वृद्धिः अजोयनिति इति एकं सूत्रम् सूत्र अनेन सूत्रेण नित् नित् प्रत्यये प्रत्ययस्य प्रत्ययः परे अस्ति चेत् धातोः अन् धादौ विद्यमानस्य स्वरस्य वृद्धिः भव भवेत् प्रत्ययः ककारः नकारः इत् इत् चेत् स्वरस्य गुणः वृद्धिः च न भवति इत्युक्ते कित् णित् प्रत्यय प्रत्ययः अस्ति चेत् धातोः पर परतः कित् प्रत्ययः अथवा णित् प्रत्ययः आगच्छति चेत् अत्र गुणकार्यस्य वा वृद्धिकारस्य वा कोऽपि प्रसक्तिः नास्ति नकारः णकारः ककारः नकारः इत्येतान् अनुबन्धान् विहाय प्रत्ययस्य अन्यकोऽपि अनुबन्धः चेत् धातोः अन्तिमस्वरस्य गुणः इत्युक्ते णित् ञित् कित् ञित् प्रत्ययः विहाय अन्यप्रत्ययः यदि धातोः परतः आगच्छति तर्हि अत्र गुणकार्यम् भवति स्वरस्य धादौ धातोः अन्तिमस्वरस्य गुणकार्यं भवति इति अत्र उक्तमस्ति किम् अन्तिमस्वरस्य एव वृद्धिः अपि भवति इति उक्तं धातौ यः स्वरवर्णः वर्तते तत्र अन्तिमस्वरस्य गुणकार्यं भवति इति उक्तम् एतादृशी महत्त्वपूर्णकार्याणि अनुबन्धैः सिद्ध्यते अत्र कार्यत्रयमुक्तमस्ति णित् नित् प्रत्ययः अस्ति चेत् स्वरस्य वृद्धिः कित् णित् प्रत्ययः अस्ति चेत् गुणकार्यं वृद्धिकार्यं न भवति कित् णित् णित् णित् भिन्नप्रत्ययः अस्ति चेत् धातोः गुणकार्यं भवति इति एकमस्ति अपि च अनुबन्धनिरनुबन्धप्र रूपम् एकं धातोः यत्र कुत्रचित् धातोः कोऽपि अनुबन्धवर्णः नास्ति प्रत्यस्यापि तथा कोऽपि अनुबन्धवर्णः नास्ति इति एकम् उक्तमस्ति अधः तत्पूर्वं किमस्ति कथं प्र सोपानेषु प्रथमसोपानः अस्ति युत्संज्ञावर्णाः प्रत्ययेषु धातुषु यः युत्संज्ञावर्णाः अस्ति तत्सर्वं दृ प्रथमं चयनं कृत्वा तेषाम् इत्संज्ञा करणीयम् तदनन्तरं मूलरूपं यद् अस्ति तत्र ये संज्ञा वर्णाः अनुबन्धवर्णाः अस्ति तेषाम् इत्संज्ञा करणीयं तदनन्तरं तस्य लोभः इत्यनेन तेषां लोभः करणीयम् यद् निरनुबन्धरूपम् अस्ति तेन सह निरबनुबन्धरूपं प्रत्यस्य तयोः मेलनं ते तदा एव लौ धातुः क्रियापदं सिद्ध्यति धातुः क्रियापदं सिद्ध्यति एतदर्थमेव एते अन्तिमसोपाने यद् दत्तमस्ति तदर्थमेव अत्र अनुबन्धा आश्रित्य अत्र नामकरणं दत्तं नित् कित् णित् एतादृश अस्मिन् करपत्रे कस्यापि सन्देहः अस्ति वा इदानीं करपत्रसम्पूर्णः अभवत् अत्र सन्देहः अस्ति चेत् पृच्छतु वयम् अग्रिमकरपत्रं गन्तुं शक्यते इति अत्र अन्तिमपरिच्छेदं सम्यक् न अवगतं तद् प्रत्यय इति किञ्चित् व्याख्यानं एतत् एतत् कृत् प्रत्ययेषु एकः प्रत्ययः यदा भूधातोः अनुबन्धवर्णः नास्ति तदा ह इति प्रत्ययस्यापि अनुबन्धवर्णः नास्ति इति एवम् उक्तमस्ति अतः अनुबन्धसहितम् अनुबन्धरहितं रूपसमानमेव भूधातोः क्रि प्रक्रियाकाले अत्र कोऽपि एतत् नास्ति खलु संज्ञवर्णः नास्ति इति वयं जानीमः खलु तादृशमेव आप्रत्य एव इति अपि अपि च अत्र अग्रे यद् वर्तते तद् वय अस्माकं करपत्रे आगच्छति एतत् नित् नित् यत् नित, सर्वम् अग्रे आग आयच्छ आगच्छति अस्मिन् विषये इदानीं अस्तु भगिनि नूतनकरपत्रं पठिष्यामः वा अथवा सन्देहः अस्ति चेत् पृच्छतु अग्रे पठामः strength, strength, strength strength, strength, ah. and strength. Ah. पटतो भवान् अन्यत् कृत्वा पठतु आं भगिनि एतावता तत्र किल एव एतावता अस्माभिः ृष्टं दृष्टं यद् वादिगणे धात्वङ्गस्य स्वरे गुणः भवति भवति केषां स्वराणां गुणादेशः भवति काम्यां नियमा नियमाम्यां नियमाम्याम् इत्यपि अस्माभिः दृष्टम् कानिचन महोदय काभ्यां नियमाभ्यां काभ्याम् ओके okay. काव्यां नियमाभ्याम् इत्यपि काभ्यां काव्यं ओके okay, विश्व काव्यां नियमाभ्याम् इत्यपि अस्माभिः द्रष्टं कानिचन उदाहरणानि अपि निरूपितानि आसन् इंपुष विचाराया अस्या सूत्र सूत्रसहिता चर्चा क्यम एक अस्म यदिगणे धातु अङ्गस्य स्वरे गुणः धातुगुणे गुणः कस्य भवति इति कथं भवति इति एतावत् दृष्टं केषां स्वराणां केषां स्वराणां गुणादेशः भवति इति केषां स्वराणाम् इत्युक्ते शकारः शप् इति स्वरे न शकारे शकार अत्रोपः भवति इति केषा स्वराणां गुणकार्यं भवति तद् वयं दृष्टवन्तः अपि च यतावदा अस्माभिः दृष्टम् एते वे? फुआदिगणे धातु अङ्गस्य स्वरे गुण भवति फू धादोः सप्प्रत्यये परे गुणकार्यं भवति वा पश्यतु शृणोतु भू इति धातुः अस्ति तस्य भूयोगः सप् इति अस्ति तदानीम् अङ्गं किं भवति इति चेत् भूयोगः शप् इति अस्ति खलु तत् सम्पूर्णरीत्या अङ्गम् सम्पूर्णरीत्या इत्युक्ते भू इति सम्पूर्णरीत्या षप् प्रत्ययकृते अङ्गम् अस्तु अतः धातु अङ्गम् इति उक्तम् अयं धातु एव अस्य धातु अङ्गस्य भू इति धातुः इति चिन्तयतु अस्य धातु अङ्गस्य स्वरे गुणः भवति अतः धातुरूपी अङ्गस्य स्वरः इत्युक्ते भू इति धातुः अस्ति चेत् अस्य अङ्गस्य किमस्ति अस्ति स्वरः उकारः अस्ति उकारस्य गुणः भवति कृ इति अस्ति चेत् कृ इति अस्ति चेत् किं भवति गुणः भवति चेत् ऋकारः स्वरोवर्णः अस्ति अस्य गुणकार्यं भवति अवगतं वा जि इति अस्ति चेत् इकारः गुण स्वरः अस्ति तद् कदा कदा गुणकार्यं भवति एवमेव गुणकार्यं न भवति धातु अङ्गस्य स्वरे इति उक्तमस्ति खलु धातुरूपी अङ्गं जायते तदानीमेव अङ्गस्य गुणकार्यं भवति यत्र प्रत्ययः अग्रे आगच्छति धातोः अनन्तरं यदा प्रत्ययः आगच्छति तदानीमेव तदानीमेव धातोः अङ्गम् इति स्टाटस् लभ्यते अपकृतं वा हा तावत्पर्यन्तं तद् धातुः एव परन्तु यदा प्रत्ययः अग्रे आगच्छति तस्य अङ्गम् इति संज्ञा प्राप्स्यते तादृश अङ्गस्य स्वरे गुणः भवति अङ्गे विद्यमानस्य स्व स्वरस्य गुणकार्यं भवति अपि च कस्य स्वरस्य गुणकार्यं गुणकार्यं भवति इत्युक्ते एकप्रत्ययः खलु अन्तिमवर्णदागिनी एकः संशयः अस्ति भवती उक्तवती तस्य गुणकार्यं भव तस्य अङ्गस्य इति तस्य इत्युक्ते प्रत्ययस्य अङ्ग वा एवं प्रत्ययकृते एव तद् अङ्गम् हा प्रत्ययस्य अङ्गमस्ति धातुः धातुः गुणकार्यम् इत्युक्ते यद् स्वरः अस्ति तस्य गुणः भवति एवं वा भवति एवम् इदानीं जि इति धातुः अस्ति शप् वितरणप्रत्ययः अस्ति अनन्तरं ति इति तिङ् प्रत्ययः अस्ति अतः तिङ् प्रत्ययस्य कृते अङ्गं किम् तिङ् प्रत्ययस्य अङ्गमस्ति धातु उत्तमं तदेव अत्र विषयः अङ्गम् इति एका संज्ञा अस्य विवरणं कथमस्ति यत्र प्रत्ययः अस्ति तस्मात् पूर्वं यावान् भागः अस्ति तत् अङ्गम् अस्य प्रत्यय अङ्गम् प्रत्ययस्य पूर्वं यदस्ति तदङ्गम् तत् अस्य प्रत्ययस्य अङ्कं प्रत्येकं प्रत्ययस्य अङ्कं विद्यते खलु अस्तु अस्तु इदानीं गुणविषये पाठः उत्तमं धन्यवादः महोदय कस्यापि सन्देहः अस्ति चेत् पृच्छतु राधा भगिनी भगिनी पठतु अग्रिम पाणिनिः अष्टाध्यायी नाम ग्रन्थं रचितवान् तत्र संस्कृतभाषायाः सम्पूर्णं मानचित्रं लभ्यते एकैकं पदं कथं निर्मितम् इति अनेन ग्रन्थेन ज्ञायते इदं मानचित्रं सूत्ररूपेण विरचितम् तथा च व्याकरणविषये यदा कदापि कोऽपि किमपि प्रदर्शयितुम् इच्छति पाणिनीयसूत्राधारेण प्रदर्शनीयं भवति व्याकरणलोके सूत्रं प्रमाणम् पाणिनिमहर्षिणा अष्टाध्यायी नाम ग्रन्थं रचितवान् तत्र सम्पूर्णसंस्कृतभाषायाः अष्टाध्यायी ग्रन्थाः नाम पूर्णसंस्कृतभाषायाः सं... मानचित्रम् इव अस्ति तत्र एकैकं एक पदं कथं निर्मितं केन थे... सूत्रेण निर्मितम् इति ततः ज्ञायते अस्माभिः तथा च व्याण विषय कि वक्त कस् पाणीना पाव सूत्रधारेण प्रदर्शित अतः व्याकरणलोक सूत्र पाणी महशे सूत्र प्रमाण अस्त मन अग्रिम पटो भगिनी अत रीत धातु विषय अभी अवलोकनीय पद्धतिः अपि अत्यन्ता सुन्दरी तर्हि अग्रेसरेम धातुगुणव्यवस्थां गुणव्यवस्थां च सूत्रस्य माध्यमेन परिशीलयामः वदतु इदानीं पाठः अग्रिमपाठः अस्ति धातुविषये पश्यामः अग्रे अग्रे तर्हि धातुगणव्यवस्था गुणव्यवस्था अस्ति इति वयम् इदानीं सूत्रस्य माध्यमेन पश्यामः धन्यवादः <laughs> भगिनी धनिमरतु पाणिनि अष्टाध्यायी नाम ग्रन्थं विरचितवान् अयं ग्रन्थः एव धनि अधारीभूतग्रन्थः संस्कृतव्याकरणलोके तत्र संस्कृतभाषायाः सम्पूर्णमानचित्रं लभ्यते एकैकं पदं कथं निर् निर्मितम् इति अनेन ग्रन्थेन ज्ञायते व्याकरणम् इत्युक्ते अष्टाध्यायी अष्टाध्याय्यां किं वर्तते इति चेत् तत्र शब्दः कथं निष्पन्नम् प्रकृतिप्रत्ययोः मेलनेन कथं नूतनशब्दस्य उत्पत्तिः जायते इति एव अस्य ग्रन्थस्य मूलबिन्दुः अतः इदं मानचित्रं सूत्ररूपेण विरचितम् यत्र प्रकृतिप्रत्ययः युज्यते तत्र कस्मिन् सोपाने कस्य सूत्रस्य प्रसक्तिः इति स्पष्टतया अस्मिन् ग्रन्थे वर्तते अपि च अनुवृत्तिसहितं प्रकरणसहितम् स्पष्टतया इदं ग्रन्थं रचितवान् पाणिनिमहर्षि तथा च व्याकरणविषये यदा कदापि कोऽपि किमपि प्रदर्शयितुम् इच्छति पाणिनीयसूत्राधारेण प्रदर्शनीयं भवति अतः यदि किमपि वयं बोधयितुम् इच्छामः तर्हि अस्य ग्रन्थस्य आधारेण करणीयः तर्हि प्रमाणेन सहितं वयं तद् कृतम् इति वक्तुं शक्यते यतोहि व्याकरणलोके किम् आधारीकृत्य चर्चा भविष्यति इति चेत् सूत्र आधारीकृत्य इदम् वयम् सर्वत्र यत्र यत्र संस्कृतमाध्यमेन बहुत्र चर्चा जायते तत्र सर्वत्र मध्य मध्ये मध्ये तैः सूत्राणि उच्यते तदपि वयं श्रोतुम् शक्यते यथा चर्चा अत्र वाक्यार्थसदस् इति जायमानम् अस्ति तत्र वयं श्रोतुम् इच्छामः चेत् तत्र सर्वत्र सूत्रस्य आधारेण चर्चा प्रचलति एव अतः एवं रीत्या धातुविषये अपि अवलोकनीयम् इदानीं पाठः कुत्र अस्ति अस्माकं पाठः धातुविषये अस्ति अतः यतोहि अत्र प्रथमपाठः धातुगणपरिचयः इति अस्ति खलु धातुगणः तदनन्तरं गा धातुगणः परिचयः गुणः धातुगणाभ्यासः तद् तदेव इस्मा इदानीम् अस्माकं पाठः अतः धातु यदा अवलोकयामः तदानीं पाणिनिना एकपद्धतिः आयोजिता अस्ति खलु अनया पद्धत्या एव अस्माकं पाठः अग्रे सरति अतः तत् अत्र कथा कथं व्यवस्था अस्ति तद्रीत्या एव अस्माकः पाठः अपि भवति धातुगणः गणस्य व्यवस्थापनं तदनन्तरं गुणः कुत्र कुत्र भवति केन सूत्रेण भवति कस्मिन् सोपाने भवति कस्य वर्णस्य गुणः भवति केन गुणः भवति तत्सर्वम् अग्रे पाठे आयास्यति अग्रिमपाठे तदेव विषयः गुणः सूत्रसहिता दृष्टि इति अतः एवं रीत्या वयम् अवलोकयामः इदानीम् अग्रिमबिन्दुः अस्ति पूर्वम् अस्माभिः दृष्टं यत् तत् पठतु सीना सङ्गीता भगिनी पठितुं शक्यते वा भगिनि पूर्वम् अस्माभिः दृष्टं यत् भुवादिगणे नियमद्वयस्य बलेन गुणः क्रियते एकः नियमः यत्र धातो धातोः अन्तिमः वर्णः स्वरः अपरनियमः यत्र धातोः उपधास्वरः इति अधुना प्रथमं नियमम् अवलो अवलोकयामः अवलोकयामः भू धातोः माध्यमेन भू भु, भुवादिगणे धातोः अन्तिम वर्णः ई, इ, इ उ अस्ति चेत् तस्य वर्णस्य गुणः भवति यथा भू भो भवति जी, जे भवति स्र, स अस् अस्तु उपरि लिखि लिखितः नियमः पूर्व पूर्व पूर्वमेव दृष्टः किन्तु अयं नियमः कुतः आगतः इति चेत् भू योगः शा योगः ती भवति इति उदाहरणं पश्याम तावत् वदतु द्वे भुवदिगणे गुणः भवति कदा भवति चेत् कदा भवति चेत् इक् वर्णाः भवति चेत् सप् प्रत्ययस्य पूर्वम् इ उ, उ, उ, उ भवति चेत् तस्य तर्हि गुणः गुणकार्यं भवति अन्तिम स्वरस्य गुण गुणः भवति इति उक्तं भू भो भवति जि जे भवति सृ सर् भवति इति उक्तम् इति कारणेन भू योगः शात् योगः ति इति भवति इति भवति भू धातोः अन्तिमस्वरः उ भवति तस्य गुणकार्यं भवति भो भवति भो योगः शापि योगः ति भो अति तस्य एकवयवयवः इति सन्धिः भवति भव् भवति भव् अति भवति भवति इति उत्तमम् धन्यवादः भगिनि इदानीं म्यूट् करोतु अत्र पश्यतु पूर्वं किम् उक्तं नियमद्वयस्य बरेण गुणः क्रियते एकः नियमः यत्र धातोः अन्तिमवर्णः स्वरः अपरः नियमः धातोः उभधा स्वरः इति इदानीं प्रथमं वयं कुत् किं पश्यामः धातोः अन्तिमस्वरवर्णस्य गुणः कुत्र भवति इति तदर्थम् उदाहरणं स्वीकृतमस्ति भू इति धातुः भू इति धातोः अन्तिमस्वरवर्णः अस्ति उकारः उकारस्य गुणकार्यं भवति इदि उक्तम् अधः अत्र भुआदिगणीयधातोः अन्तिमव स्वरवर्णः इक् कश्चन वर्णः अस्ति चेत् अस्य तादृश इक् वर्णस्य गुणकार्यं भवति अनेन एव उकारस्य ओकारः भवति भो इति भवति अत्र नूतनकार्यं किमपि नास्ति एतद् वयं दृष्टवन्तः अतः अग्रिमबिन्दु पठिष्यामः गुणस्य चिन्तनक्रमः तत् पठित्वा अद्य स्थगयामः अग्रिमकक्षायां पुनः पठिष्यामः सीना भगिनी प्रक्रिया एतादृशी भू योगः योगः प्रथमोऽध्याये द्वितीयपादे अष्टमसूत्र भगिनी तृतीयपादः खलु हा तृतीयपादे प्रथमोध्याये तृतीयपादे अष्टम श्लोक श्लोकः अष्टमूत्रः अष्टमसूत्रः हलन्त्यां प्रथमोध्याये तृतीयपादे तृतीयसूत्रः स तस्य लोपः प्रथमोध्याये तृतीयपादे नवमसूत्रः सूत्र शक शकार बकारप भूयोक आयोगिधाक तृतीयोध्या चतुपेदश प्रत्यय सेक सार्धातुकसज्ञा सर्वधातुका सार्वधातुकार्धधातुकयोः इति सूत्रम् सप्तमोऽध्याये शा, तृतीयपादे चतुर् चदु, चतुरशीतिः सूत्राणि इत्यनेन सार्वधातुकप्रत्यये प्रत्यये परे इगन्ताङ्गन्ताङ्गस्य इदा, इकः गुणः भोयोगः आयोगः इति यजोयवायवः इति सूत्रेण षष्टम शा, षष्टमोऽध्याये प्रथ प्रथमपादे सप्तसप्ततिः सूत्र इत्यने इत्यनेन ओ स्थाने अव भूयोगः अवयोगः आयोगः इति तावत् पर्याप्तं भगिनी तावत् पर्याप्तं म्यूट् करोतु भगिनि कथं भवती भगिनि म्यूट् करोतु चिन्ता मास्तु आहत्य प्रक्रिया एतादृशी भूयोगः शप्योगः ति इत्यत्र फू इदि धातुः यद् वर्तते तस्मिन् कोऽपि अनुबन्धवर्णाः नास्ति इति कारणात् साक्षात् भू एव प्रक्रियाया आगच्छति धातोः कोऽपि परिवर्तनं न भवति शप् इति विकरणप्रत्ययस्य वर्णविच्छेदं यदा करोति शकारः अकारः पकारः वर्तते तत्र पकारस्य हलन्द्यम् इत्यनेन इत्संज्ञा भवति तस्य लोभः इत्यनेन भवति इत्संज्ञा वर्णस्य आदौ वर्तते तस्य शकारस्य दशक्वदनेन श इत्संज्ञा भवति तस्य लोभः तस्यापि लोपः भवति अकारः एव अवशिष्यते अतः प्रक्रियाकाले धातोः अनन्तरं शब्दरणप्रत्ययः आगच्छतिबन्धरूपमस्ति अकारः अतः भूयोगः आयोगः इति स्थिति तिङ्प्रत्यय धातु तिङ्प्रत्ययोः मध्ये अकारः एव तिष्ठति भूयोगः आयोगः ति तत्र किञ्चित् सार्वधातुकम् इत्यनेन शप्रत्ययः सार्वधातुकसञ्ज्ञा यतो हि इदानीम् किमुक्तम् गुणकार्यम् भवति इति अतः कस्य गुणकार्यम् भवति धातोः विद्यमानस्य स्वरस्य गुणकार्यम् भवति यदा प्रत्यह अग्रे आयास्यति चेत् न तु प्रत्यह आयास्यति चेत् इति न उक्तम् किम् उक्तमस्ति प्रत्यह परे आगच्छति चेत् धातोः विद्यमानस्य अन्तिम इक् वर्णस्य स्वरादेशः भवति इति अत्र उक्तमस्ति सर्वत्र तदेव उक्तं पश् यत्र धातोः अन्तिमस्वरवर्णस्य गुणाकार गुणः भवति अयं स्वरवर्णः किम् अस्ति इकारः इकारः उकारः उकारः ऋकारः अथवा ऋकारः इत्युक्ते इक् प्रत्याकारस्थ कश्चन वर्णः धातोः अन्तिमवर्णः अस्ति चेत् एतत् अस्ति चेत् गुणकार्यं भवति तस्य वर्णस्य गुणः भवति इत्युक्ते धातोः अन्तिमवर्णः इक् प्रत्याहारस्थ कश्चन वर्णः अस्ति चेत् अस्य वर्णस्य गुणकार्यम् भवति कदा भवति प्रत्यह परे आगच्छति चेत् अतः सार्वधातुकम् इति सञ्ज्ञा कस्य भवति इति ज्ञातव्यम् तदर्थम् सूत्रः अस्ति तिङ् षित् सार्वधातुकम् तिङ् अतः तिङ् इति किम् अस्ति इति ज्ञातव्यम् षित् इति किम् किम् इति ज्ञातव्यम् तिङ् प्रत्ययस्य षित् प्रत्ययस्य सार्वधातुकसंज्ञा तत् केन सूत्रेण भवति इति अग्रे पाठे आयास्यति अपि च सा। सार्वथादुक आर्थधादुकयोः इति एकं सूत्रम् अनेन सूत्रेण सार्वधातुकप्रत्यये परे इगन्तस्य अङ्गस्य इकः गुणः इगन्तस्य अङ्गस्य इकः गुणः इति वयम् इदानीं दृष्टवन्तः इगन्तम् अङ्गम् यदि सार्वधातुकप्रत्यये परे धातुः आगच्छति अपि च धातोः अन्तिमवर्णः यत्र इक प्रत्याहारस्य कश्चन वर्णः अस्ति चेत् तादृश अङ्गमस्ति इगन्तम् अङ्गम् तादृश अङ्कस्य इकः गुणः भवति इति अत्र उक्तमस्ति इदं बिन्दु पुनः वयम् अग्रिमसप्ताहे पठिष्यामः गुणस्य चिन्तनक्रमः तावत्पर्यन्तं वयं पठितवन्तः इदानीम् अद्य अत्र स्थगयामः इदानीं पर्यन्तं कस्यापि सन्देहः अस्ति चेत् पृच्छतु सर्वेषां धन्यवादः नमस्काराश्च